प्रसन्नवदनो नित्यं सर्वभूतहिते रतः जङ्गमा जङ्गमम् सर्वम् अविहिंसंश्चतुर्विधम् स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति एककालं चरन् भैक्ष्यं कुलानि दश असम्भवे वाभैक्ष्यस्य चरन्न दशनान्यपि अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातु चेत् अन्यान्यपि चरन् लोभादलाभे सप्त पूरयन् अलाभे यदि वा लाभे समदर्शी महातपाः वास्यैकं तक्षतो बाहुम् चन्दनेनैकमुक्षतः न कल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः जीवितं मरणं चैव नाभिनन्दन्न च दृशन् जीवताशक्याः कर्तुमभ्युदयक्रियाः ताः सर्वासमतिक्रम्य निमेषादिव्यवस्थिताः तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः सम्परित्यक्तधर्मार्थः सुनिर्मित्तात्मकल्मषः निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्व वा गुराः नवशेकस्य चित्तिष्ठन् स एतया सततं धृत्या चरन् प्रकारया, देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते स्वधर्मात् सततापेते चरेयं वीर्यवर्जितः सत्कृतोऽसत्कृतो वापि योन्यं कृपणचक्षुषा उपैतिवृत्तिं कामात्मा सशुनाम् वर्ततेपथी, वैशंपायन वैशम्पायन उवाच एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत कौसल्या विदुरः क्षत्ता राजा आर्या सत्यवती भीष्मः ते च राजपुरोहिताः पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् निशम्यवचनम् भर्तुर्वनवासे धृतात्मनः तत्समम् वचनम् कुन्ती माद्री च समभाषताम् अन्येपेह्याश्रमास्सन्ति ये शक्त्या भरतर्षभावाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो शरीरस्यापि मोक्षाय स्वर्गं प्राप्य त्वमेव भविता भर्ता स्वर्गस्यापि न प्रणिधायेन्द्रियग्रामम् भर्तृलोकपरायणे त्यक्तकामसुखे ह्यावाम् तप्स्यावो विपुलम् तपः यदि चावामहाप्राज्ञ विशाम्पते अद्य वाम् प्रहास्यावो जीवितम् नात्र पाण्डुरुवाच यदि व्यवसितं ह्येतद् युवयोर्धर्मसंहितं स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः वल्कलीफलमूलाशी चरिष्यामि महावने अग्नौ जुह्वन्नुभो ो भवुपस्पृशन् कृशः परिमिताहारः चीरचर्म जटाधरः शीतवाता तपसः क्षुत्पिपासानवेक्षकः तपसा दुश्चरेणेदम् शरीरमुपशोषयन् एकान्तशीली पक्वापक्वेन वर्तयन् पितॄन् देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्